संयुक्तं नित्यं ध्यायन्ति योगिनः कामदम् मोक्षदं चैव ओङ्काराय नमो नमः न मन्ति ऋषयो देवा न मन्त्यप्रसां गणाः नमन्ति देवेशं नकाराय नमो नमः महादेव महात्मानं महाध्यानं परायणम् महापापहरं देवं मकार शिवं शान्तं जगन्नाथं लोकानुग्रहकारकम् शिवमेकपदं नित्यं शिकाराय नमो नमः वाहनं वृषभो यस्य वासुकिः मे शक्तिधरं देवं वकाराय नमो नमः यत्र यत्रस्थितो स्थितो देवः सर्वव्यापी महेश्वरः यो गुरुः सर्वदेवानां यकाराय नमो नमः be